षष्टितमः सर्गः जनकस्य वच श्रुत्वा विश्वामित्रो महामुनिः धनुर्दर्शय रामाय इति होवाच पार्थिवं। ततः स राजा जनकः सचिवान्यादिदेशः धनुरानीयताम् दिव्यम् गन्धमाल्यानुलेपितम् जनकेन समादिष्टाः सचिवाः तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः नृणाम् शतानि पञ्चाशद्यायतानाम् महात्मना मञ्जूषामष्टचक्रान्ताम् समूहस्ते कथञ्चन तामादायसु मञ्जूषामायसीम् यत्र तद्धनुः सुरममन्ते जनकमोच नृपतिमन्त्रिणः इदम् धनुर्वरम् राजन् सर्वराजभिः राज मिथिलाधिपराजेन्द्रदर्शनीयम् यदीच्छसि तेषाम् नृपोऽपच श्रुत्वा कृताञ्जलिरभाषत विश्वामित्रम् महात्मानम् तावभौ रामलक्ष्मणौ इदम् धनुर्वरम् ब्रह्मम् जनकैरभिपूजितम् राजभिश्च महावीर्यैरशक्तैः पूरितम् तदा नैतत्सुरगणाः सर्वे सासुरा न च राक्षसाः गन्धर्वयक्षप्रवराः सखिन्नरमहोरगाः क्वगजर्मानुषाणाम् च प्रपूरणे आरोपणे समायोगे वेपने तोलने तथा तदेतद्धनुषाम् श्रेष्ठमानीतम् मुनिपुङ्गवा दर्शयैतन्महाभाग अनयो महाभाग विश्वामित्रः स रामस्तु श्रुत्वा जनकभाषितम् वत्स पश्य इति राघवमब्रवीत् महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः मञ्जूषाम् तामपावृत्य दृष्ट्वा धनुरथा ब्रवीत् इदम् धनुर्वरम् दिव्यम् संस्पृशामीह पाणिना यत्नवांश्च भविष्यामि तोदने पूरणेऽपि वा बाढमित्यब्रवीद्राजा मुनिश्च समभाषत लीलया स धनुर्मध्ये जग्राहवचनान्मुनेः पश्यताम् नृसहस्राणाम् आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः आरोपयित्वा मौर्वीम् च पूरयामास तद्धनुः तद्बभञ्जधनुर्मध्ये नरः श्रेष्ठो महायशाः तस्य शब्दो महानासीन्निर्घातसमनिस्वनः भूमिकम्पश्च सुमहान्पर्वतस्येव दीर्यतः निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः वर्जयि मुनिवरम राजस्ते जगत साध्वस उवाच प्राजलिर्वाक्यं वाक्यज मुनपुंगव भगवी मे राो दशरथात्मज अत्यभुतमचित अतर्कितदं मैया जनकाना कुलले कीर्तिमाहति मे सुता सीता भर्ता रमासाद्य रामम् दशरथात्मजम् मम सत्या प्रतिज्ञासा वीर्यशुल्केति कौशिका सीता प्राणैर्बहुमता देया रामायमे सुता भवतोऽनुमते ब्रह्मम् शीघ्रम् गच्छन्तु मन्त्रिणः मम कौशिकभद्रन्ते अयोध्यान्तरिता रथैः राजानम्रश्रितैर्वाक्यैरानयन्तु पुरम् मम प्रदानम् वीर्यशुल्कायाः कथयन्तु च सर्वशः गुणिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै प्रीतियुक्तम् तु सुशीघ्रगाः कौशिकस्तु तथेत्याह राजा, राजा चाभाष्यमन्त्रिणः अयोध्याम् प्रेषयामास धर्मात्मा कृतशासनान् यथावृत्तम् समाख्यातुमानेतुम् च नृपम् तथा इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्टितमः सर्गः